इवत्योम्बोदावत् दशकम् मोहिनि मोहिनी अवतारं करादमृतम् हरत्सो दैत्येषु तान् चरणाननुनीय देवन् सत्यस्तिरोदति तदेव भवत् प्रभावात् उद्यत्स्वयूत्यकलहादिजा बभूवु पुरान् त्वम् पीयूषकुम्भकलकम् सर्वे कृष्णाकुला प्रतिययुस्त्वदुदरोजकुम्भे का त्वम् ऋकाक्षि विभजस्व सुतामिमामिति आरूढरागविवचान कुलटास्मि दैत्या इत्यालपन्न मोदात्सुता कलचमेषु दतत्सु मम सखत्वमिति ब्रुवाणा भङ्क्तिभ्रमेत विनिवेशित देव दैत्य लीलाविलासगदिभिः समता सुधान्ता अस्मा स्वीयम् प्रणयि नित्य सुरेषु तेषु जोषम् स्थितेष्वत समाव्यसुताम् सुरेषु त्वम् वक् तलोगवचको निजरूपमेत्य स्वर्भानुमर्दपरिपीतसुतम् व्यलावी त्वत्तःदाहरणयोग्यफलम् परेषो धत्वा गते त्वयि सुरे कलुते व्यगृह्णन् घोरे तमूर्च्छति रणे बलिदैत्यमाया व्यामोकिते सुरगणे त्वमिहा विरासी त्वम् सपाकान् शुष्काभ्रतुष्कर चौचलूने फेन नारद गिरान्य ऋणोरणम् त्वम् योषा बबुर्दनुजमोहनमाहितम् ते श्रुत्वा विलोकन कुतूहलवान् महेश भूतै समम् गिरिजया च गत पतन्ते श्रुत्वा ब्रवीत विमतम् त्वमतो दिरोधा आरामसीमनि च कन्दुगदातलील लायमाननयनाम् कमनीम् मनोज्ञा त्वामेव वीक्ष्य विकलत्वसनाम् मनो भो वेगाधनङ्गरिभुरङ्गसमालिलिङ्ग स्वामीये शरणमय्यप्पा स्वामीये शरणमय्यप्प भूयोऽपि विद्रुतवतीमुपधाव्य देव वीर्यप्रमोक्षविकसत्परमार्तबोध त्वन्मानितस्तवमहत्वमुवाच देव्यै तद्दादृशस्त्वमववादनिकेतनाथ श्रीहरये नमः